षण्णवत्यधिकशततमोऽध्यायः व्यास उवाच पुरा वै नैमिषारण्ये देवाः सत्रमुपासते तत्र वैवस्वतो राजन् सामित्रमकरोत्तदा ततो यमो दीक्षितस्तत्र राजन्नामारयत्कञ्चिदपि प्रजानाम् ततः प्रजास्ताबहुला बभूवुः कालातिपातान्मरणप्रहीणाः सोमश्च शक्रो वरुणः कुबेरः साध्या रुद्रावसबोधास्विनौ च प्रजापतिर्भुवनस्य प्रणेत समाजग्मुस्तत्र देवास्तधान्ये ततोऽ्रुवन् लोकगुरुं समेत भयात्तीव्रान्मानुषाणाञ्च वृद्ध्या तस्मा भयादुत सुखेसव प्रयाम सर्वे शमह उवाच किं वो भय मषेभ्यो यूय सर्वे यदा मो मसकाशावि भविमर् देवा ऊचु मर्थ्याम्यावृत्ता न विशेषस्तन अविशेषादुद्विजन्तो विशेषार्थमिहागताः श्रीभगवानुवाच वैवस्वतो व्यापृतः सत्र हेतोस्तेन त्विमेन म्रियन्ते मनुष्याः तस्मिन्नेकाग्रे कृतसर्वकार्ये वैवस्वतस्तस्यैव तनुर्विभक्ता वीर्येण युष्माकमुतप्रयुक्ता सैषामन्तो भविता ह्यन्तकाले न तत्र वीर्यम् भविता नरेषु व्यास उवाच ततस्तु ते पूर्वजदेववाक्यम् श्रुत्वा जग्मुर्यत्र देवा समासीनास्ते समेता महाबला भागीरथ्याम् ददृशुः पुण्डरीकम् दृष्ट्वा च तद्विस्मितास्ते बभूवुस्तेषामिन्द्रस्तत्र शूरो जगाम सोपस्यद्योषामथपावकप्रभाम् यत्र देवी गङ्गा सततम् प्रसूता सा तत्र योषा रुदती जलार्थिनी गङ्गाम् देवीम् व्यवगाह्यव्यतिष्ठत् तस्याश्रुबिन्दुः पतितो जले यस्तत्पद्ममासीदध प्रेक्ष्य वज्री तदानीमपृच्छत्ताम् योषितमन्ति का भद्रे रोदिषि कस्य हेतोर्वाक्यम् तथ्यम् कामयेऽहम्ब्रवीः स्त्रियुवाच त्वं वेत्स्य मामिह यास्मि शक्र यदर्थम् या चाहं रोदिमि मन्दभाग्या आगच्छ राजन्पुरतो गमिष्ये द्रष्टासि तद्रोदिमि यत्कृतेऽहम् व्यास उवाच ताम् गच्छन्तीमन्वगच्छत्तदानीम् सोपस्यतारात्तरुणम् दर्शनीयम् युवती सहायं, क्रीडन्तमैषद्गिरिराजमूर्ध्नि तमब्रवीद्देवराजो ममेदम् त्वम् विद्धि विद्वन् भुवनम् वसे स्थितम् ईशोऽहमस्मीति समन्युरब्रवीत् दृष्ट्वा तमक्षैः सुभृशम् प्रमत्तम् क्रुद्धम् च प्रसमीक्ष्य देवो जहासशक्रम् च शनैरुदैक्षत संस्तम्भितो भूदध देवराजस्तेनेक्षितस्थाणुरिवावतस्थे यदा पर्याप्तमिहास्य क्रीडया तदा देवीम् रुदतीम् तामुवाच आनीयता हमारा नैनम दर्प पुनरप्यासेत तत सक्रस्पृमा तो स्त्रैरंगे पति भूध्या तमब्रवीद भगवाग्रतेजाव पुनः सक्रकता निवर्तयैनम् च महाद्रिराजम् बलम् च वीर्यम् च तवा प्रमेयम् छिद्रस्य चैवाविसमध्यमस्य यत्रासते त्वद्विधाः सूर्यभासः स तद्विवृत्य विवरम् महागिरेस्तुल्यद्युतींश्चतुरोऽन्यान्ददर्श सतानभिप्रेक्ष्य बभूव कच्छिन्नाहम्भविता वै यथेमे ततो देवो गिरिशो वज्रपाणिम् विवृत्यनेत्रे कुपितोऽभ्युवाच दरीमेताम् प्रविश त्वम् शतक्रतो यन्माम् स्थाह पुरस्तात् उक्तस्त्वेवं विभुना देवराजः प्रावेपतार्तो भृशमेवाभिषङ्गात् स्रस्ंगलुनम अस्वत्थपत्र गिरीराजमूर्धनि सपरांजलिवृषवाहन प्रवेपन सहस मुक्त उवाच दें बहु रूप्र स्रष्टा शुवन सेवाह तमब्रवीदुग्रवर्चा प्रहस्य नैवं शीलाः शेषमिहाप्नुवन्ति एतेप्येवं भवितारः पुरस्तात् तस्मादेतां दरीमाविश्येष्व तत्र ह्येवं भवितारो न संशयो योनिं सर्वे मानुषीमाविसध्वं तत्र यूयं कर्म कृत्वा बहून्यान्यधनं प्रापयित्वा आगंतारः पुनरेवेन्द्रलोकं स्वकर्मणा पूर्वजितं महार्हं सर्वं मया भाषितमेतदेवं कर्तव्यमन्यद्विविधार्थयुक्तम् उपेन्द्र ऊचुः गमिष्यामो मानुषं देवलोकात् दुराधरो विहितो यत्र मोक्षः देवास्त्वस्मानादधीरञ्जनन्यां धर्मो वायुर्मघवानश्विनौ च अस्त्रैर्दिव्यैर्मानुषान् योधयित्वा आगन्तारः पुनरेवेन्द्रलोकं व्यास उवाच एतच्छ्रुत्वा वज्रपाणिर्वचस्तु देव्रेष्ठ पुनरेह वीणाह कार्य हेतुा पंचम मत्सूत विश्वभूतधा चिबिरीद्रतापवान्तिदस्तेषा वै तेजस्वी पंचम देशाम् कामं भगवानुग्रधन्वा प्रादादिष्टं सन्निसर्गात्यथोक्तम् तां चाप्येषां योषितं लोककान्तां श्रियं भार्यां व्यदधान्मानुषेषु तैरेव सार्धन्तु ततः स देवो जगामनारायणमप्रमेयम् अनन्तमव्यक्तमजं पुराणं सनातनं विश्वमनन्तरूपं स चापि तद्व्यवधात्सर्वमेव ततः सर्वे संबभूवूर्धरण्यां स चापि कुले तयो रेको बलदेवो स्त्रिय देंकी तोरेको बलदेव बभूव येतस्त केश्णद्वितूव केशो वर्णत उत्त एते पूर्वम् शक्ररूपानिबद्धास्तस्याम् दर्याम् पर्वतस्योत्तरस्य इहैव ते पाण्डवा वीर्यवन्तः शक्रस्याम् सः एवमेते पाण्डवाः सम्बभूवुर्येते राजन्पूर्वमिन्द्रा बभूवुः लक्ष्मीश्चैषाम् पूर्वमेवोपदिष्टा भार्यायैषा द्रौपदी दिव्यरूपा कथं हि स्त्रीकर्मणा ते महीतलात् दन्यतो देवयोगात् यस्यारूपं सोमसूर्यप्रकाशम् गन्धश्चास्याः क्रोशमात्रात्प्रभाति इदं चान्यत् प्रीतिपूर्वं नरेन्द्र ददानि ते वरमत्यद्भुतं च दिव्यं चक्षुः पश्य कुन्तीसुतांस्त्वं पुण्यैर्दिव्यैः पूर्वदेहैरुपेतान् वैसंपायन उवाच ततो व्यासः कर्मा। सुचिर्विप्रस्तपसा तस्य राज्ञः चक्षुर्दिव्यम् प्रददौतांश्च सर्वान् राजापश्यत्पूर्वदैहैर्यथावत् ततो दिव्यान्हेमकिरीटमालिनः शक्रप्रख्यान्पावकादित्यवर्णान् बद्धापीडांश्चारुरूपांश्च यूनो व्यूढोरस्कां स्ताडमात्रान्ददर्श दिव्यैर्वस्त्रैररजोभिः सुगन्धैः माल्यैश्चाग्र्यैः शोभमानानतीव साक्षात् सर्वगुणोपपन्नान् तान् सक्रात्मजं चेन्द्ररूपम् निशम्य प्रीतो राजा द्रुपदो विस्मितश्च दिव्याम् मायाम् तामवेक्ष्या प्रमेयाम् तां चैवाग्र्यां स्त्रियमतिरूपयुक्ताम् दिव्यां साक्षात्सोमवह्निप्रकाशाम् योग्याम् तेषां रूपतेजोयशोभिः पत्नीं मत्वा हृष्टवान् पार्थिवेन्द्रः स तद्दृष्ट्वा महदाश्चर्यरूपम् जग्राहपादौ सुतस्य नैतच्चित्रम् परमर्शेत्त्वयीति प्रसन्नचेताः स व्यास उवाच आसीत्तपोवने काचिदृशेः कन्या महात्मनः नाध्यगच्छत्पतिं सा तु कन्या रूपवती सती तोषयामास तपसा सा किलोऽग्रेण शङ्करम् तामुवाचे प्रीतो वृणुकाममिति स्वयम् सैव मुक्ताब्रवीत्कन्या देवं वरदमीश्वरम् पतिम् सर्वगुणोपेतमिच्छामीति पुनः पुनः ददौ तस्ये सदेवे देवे सस्तम् वरम् प्रीतमानसः पञ्चते पतयो भद्रे भविष्यन्तीति शङ्करः सा प्रसादयिति देवमिदम् भूयोऽभ्यभाषत एकम् पतिम् गुणोपेतम् त्वत्तोऽर्हामीति शङ्कर तां देवदेव प्रीतात्मा पुनः प्राहशुभं वचः पञ्चकृत्वस्त्वयोक्तोऽहं पतिं देहीति वै पुनः तत्तथा भविता भद्रे वचस्तद्भद्रमस्तु ते देहमन्यं गतायास्ते सर्वमेतद्भविष्यति द्रुपदेशा हि सा सुता वै देवरूपिणी पंचा विष्ण पाश्त्यनितागश्री पांडवा सुत्पन्ना महामखे तवागता। घोरम दुहितृत्वताीचिरा देंजुष्टा पंचा नेह कर्मण सृष्टा स्वयं देवपत्नी स्वयं स्वयंभुवा श्रुत्वा राजन्द्रुपदेष्टं कुरुष्व इति श्रीमहाभारते आदिपर्वणि वैवाहिकपर्वणि पञ्चेन्द्रोपाख्याने षण्णवत्यधिकशततमोऽध्यायः